श्रीहरये नमः अथ द्वादशोऽध्यायः अश्वत्थाम्नोपसृष्टेन ब्रह्मसिष्णो रुतेजसा उत्तराया हतो गर्भ ईशेनाजीवितः पुनः तस्य जन्ममहाबुद्धेः कर्माणि च महात्मनः निधनं च यतैवासीत् स तदिधं श्रोतुमिच्छामो गतितुं यधि मन्यसे भ्रुहिनः श्रद्धधानानां यस्य ज्ञानमदाच्छुकः सोत उवाच प्रजाः निःस्पृहत्सर्वकामेभ्य कृष्णपादाब्जसेवया सम्बतक्रतवो लोकामकिषी प्राधरो महे जम्बूत्वीपाधिपत्यं च यशश्च त्रिधिवं गतं किं ते कामः सुरः स्पार्हा मुकुन्तमनसो द्विजाः अतिजहृर्मुतं राज्ञश्रुतीदस्य यधेतरे मातुर्गर्भगतो वीरस्ततथा भृगुनन्दन तदर्शपुरुषं कञ्चित् दह्यमानोऽस्त्र अपिश्च दर्शनम् श्यामम् तडिद्वाससम्मच्युतं श्रीमद्दीर्घतुर्भाकुं तप्त काञ्चनकुण्डलं शतजाक्ष पाणिम् आत्मनः सर्वतो दिशं परिभ्रमन्दमुल्काभां भ्रामयन्तं गता मुहुः त्यसौ विधूय तदमेयात्मा भगवान् धर्मगुप्विभुः मीक्षतो दशमासस्य तत्रैव अन्तर्धते हरिः ततः सर्वगुणोदर्गे सानुकूलग्रहोदये जज्ञेवं स धरः पाण्डोर्भूयपाण्डुरिवौजसा तस्य प्रीतमना राजाभिप्रेदौम्यक्वादिभिः जातकं कारयामास वाचयित्वा च च ्रेभ्य प्रजातीर्थे सतीर्थवेत् तमूषुर्ब्राह्मणास्तुष्टान् राजानं प्रसयान्वितं येष ह्यस्मिन् प्रजादन्तौ पुरूणां पौरवर्षभा तैवेनाप्रतिघातेन शुक्ले संस्थामुपेयुषे रातो वोऽनुग्रहार्ताय विष्णुना प्रभविष्णुना तस्मान्नाम्ना विष्णुराधयिति लोके बृहश्रवाः भविष्यति न सन्द्वेहो महाभागवतो महान् युतिष्ठिर उवाच अभ्येषवंस्यान् राजर्षीन् पुण्यश्लोकान् महात्मनः अनुवर्तिता स्वित्यश साधुवादेन सत्तमाः ब्राह्मणावूषु पार्थप्रजापिता साक्षात् इक्ष्वाकुरिव मानवः ब्रह्मण्य सत्यसन्धश्च रामो एष धाता शरण्यश्च यथा ह्यौ सीनरशिभिः यशोभिधनिधास्वानां दौष्यन्दिरिव यज्वना धन्विनाम् अग्रणीरेशतुल्यश्चार्जुनयोर्द्वयोः कुदास इव दुर्दर्शः समुद्र हिमवानिव तिदीक्षुर्वसुधेवासौ स कृष्णः पितराविभन् पितामहः समस्सां ये प्रसादे गिरिशोपमहान् आश्रेयः सर्वभूतानां यथा देवो रमाश्रयः सर्वसद्गुणमहात्मये एष कृष्णं मनोव्रतः रन्तिदेव इवाधारो ययादिरिव धार्मिकः बलिस्समकृष्णे प्रह्लाद इव आकर्तोस्वेधा वृद्धा पर्युपासकर्षीण जनयिता शास्ता शोत्पथा निगृहीता कलेक्ो धर्म तक्षकातात्मनो मृत्युम् द्विजपुत्रोपसर्जितात् प्रपत्स्यत उपश्रुत्य मुक्तसङ्गपधम् हरेः जिज्ञासितात्म यथोत्म्यो मुनेर्व्याससुतातसौ हि त्वे तं नृप गङ्गायां यास्यत्यद्धो कुतो भयम् इति राज्ञमुपातिस्य विप्राजातकगोविधाः लब्धापचितयः सर्वे स एष लोके विज्ञात परीक्षिति यत्प्रभुः गर्भे दृष्टम् अनुध्यायन् परीक्षेत नरेष्विह स राजपुत्रो बभृदे आशुशुक्लयुवोडुभः आपूर्यमाण पितृभिष्ठाभिरिवसोऽन्वहं यक्षमाणोऽस्वधेन ज्ञाति द्रोकजिकासयान् दधनो धत्यावन् यत्र करदण्डयोः तदभिप्रेतमालक्ष्य भ्राधरोश्च्युतचोदिताः धनं प्रहीणमजगृहो बुधीच्यां दिशि भूरिसः तेन सम्भृदसम्भरो धर्मपुत्रो युतिष्ठिरः वाजिमेधस्त्रिभिर्भीतो यज्ञै समयजत् हरिम् आहुतो भगवान् राज्ञा या उवासकति द्विजैनृपम् उवासकतिचिन्मासान् सुहृदां प्रियकां यया ततो राज्ञाभ्यनुज्ञातः कृष्णया सगबन्धुभेर्ययौद्वारवतीं ब्रह्मन् सा अर्जुनो इति श्रीमद्भगवते महापुराणे प्रथमस्कन्ते नैमिशियो भाग्याने परीषिजन्माद्युत्कर्षो नाम द्वादशोऽध्यायं सर्वत्र गोपिका जीवनस्मरणं गोविन्दा गोविन्द